ॐ नमो भगवते वासुदेवाय श्रीमद्भागवत् महापुराणं दस्मः स्कन्धः उत्तरार्ध अथ पञ्चाशत्तमोऽध्यायः जरासन्दसे युद्ध और्द्वारिकापुरीका निर्माण शेषोकुवाच अस्ति प्राप्तेश्च कंसस्य महिष्यो भर्तर्षभ मृते भर्तरि दुःखार्ते नेत्रे मगधराजाय जरासंधाय दुःखिते वेदया चक्रतु सर्वम् आत्मवेदव्यकारणं स तदप्रियमाकरणशोकामर्षितो नृप अयादभिं महिं कर्तुं चक्रे परममुद्यमम् अक्षौहिणीभिर्विशत्याभिश्चापि संवृतः यदि राजधानीं मथुरां नरुणत् सर्वतोदिशम् नृक्ष्य तद्बलं कृष्ण उद्वेलमीसागरं श्वपुरं तेन संरुद्धं स्वजनं च भयाकुलं चिन्तयामास भगवान् हरिकारणमानुष तद्देशकालानुगुणं स्वावतारप्रयोजनम् अनेष्यामि वलं चेतद्भुवि भारं समाहितं मागतेन समानीतं वश्यानां सर्वभूभुजाम् अक्षौहिणीभिः सङ्ख्यातं भटास्वरथकुञ्जरैः मागदस्तो न हन्तव्यो भूय कर्ता बलोद्यमम् एतदर्थोऽवतारोऽयम् भूभारहरणाय मे संरक्षणाय साधूनां कृतोऽन्येषां वधाय च अन्योऽपि धर्मरक्षायै देहसम्भ्रीयते मया विरामायाप्यधर्मस्य काले प्रभुवत क्वथे एवं ध्यायति गोविन्द आकाशासुर्यवर्चसौ नथा उपस्थितौ सद्य प्रससूतौ स परिच्छदौ आयुधानि च दिव्यानि पुराणानि यदीक्षया दृष्ट्वा तानि सृशिकेश शङ्कर्षणम् अथा ब्रवीत् पश्चार्जव्यसनं प्राप्तं यदूनां त्वावतां प्रभो एषमे रथ आयातो दयितान्यायुधानि च ज्ञानमासाय जह्येदन् व्यसनाश्वान्समुद्धर एतदर्थं हिनो जन्म साधूनामी स धर्मक्रियम् त्रयोविंशत्यनिकाख्यं भूमिर्भारमपाकुरु एवं सन्मत्र दासार्हो दंशितौ रसिनो पुरात् निर्जग्मतो स्वायुधार्ढ्यौ बलेनाल्पीयसा मृतौ शङ्खं दद्मौ निर्गत्य हरिदारूकसारथिः ततो भूतः परसैन्यानां हृति वित्रासवेपतु तावाहमागतो वीक्ष हे कृष्णपुरुषाधम न त्वया योद्धुम् वीक्षामि बालेनैकेन लज्जया गुप्तेन हि त्वया मन्दनयोस्येयाहि बन्धुवन तव राम यदि श्रद्धां युद्धस्वधैर्यमुद्वह हित्वावां मध्ये छिन्नं देहं सर्याहिमाम मां जहि श्रीभगवानुवाच न वैशूरा विकथन्ते दर्शयन्तेव पौरुषं न गृहिणीमो वचो राजन्नातुरस्य मुमुर्षतः श्रीशुकुवाच जराशुतस्तावभिसृत्य माधवौ महाबलौघेन बलीयशाम्नोत सैन्ययानध्वजवाजिसारथि सूर्यानलो वायुरिवाभ्ररेम्भरेणुवी सुपर्णतालध्वजचिह्नितौ रथालक्ष्यन्तो हरिरामयोर्मिधे तियपुराड्डालकं धर्मगोपुरम् मासित शम्मुः सुचार्जिता हरिपरानीकपयोमुचाम्मुः श्रीमुखाद्युल्मणवर्षपीडितं स्वसैन्यमालोक्यसुरासुरार्चितं व्यस्फूर्ज यच्छार्गसरासनोत्तमं कृणन्यशङ्गाद सुसन्दरान् मृगे स मञ्चे बाणपूगान् निघ्नन्दथान् कुञ्जरवाजपत्तिन् निरन्तरं यद्बदलात् चक्रम् निर्भिन्नकुम्भाकरिणो निपेतुर् अनेकशोश्वा सर्वेष्णकन्धरा तदा हिता स्वयं ध्वजं सूतनायका पदाति यच्छिन्नभुजोरुकन्धरा सञ्चिद्यमानद्विपदेवम्भुवाजिनाम् मङ्गप्रसूता सतसोऽसि गापगा भुजा हयपुरुषशीर्षकच्छपा हतद्विद्वीपहयग्रहाकुलाः करोर् मेना नरकेशसैवला धनुतरङ्गायुजगुल्मसङ्कुला अच्छुरिकावर्तभयानकामः मणिप्रवेकाभरणात्मसर्करा प्रवर्तिताभिरुभयावहामृधे मनस्विनां हर्षकरी परस्परं विदेघ्नतारीन् मुसलेन दुर्मदान् शङ्कर्षणेनापरिमियतेजसा बलं तदङ्गार्णवदुर्गभैरवं दुरन्तपारं मगुधीन्द्रपालितं क्षयं प्रणीतं वसुदेवपुत्रयो विक्रीडितं तज्जगदीशयो परम् सत्योद्भवान्तं भुवनत्रयस्य य समीहतेनन्तगुणसलीलया न तस्य चित्रं परपक्षनिग्रह तथापि मर्ता वर्ण्यते